तृतीयाष्टके तृतीयप्रश्नः प्रारम्भः प्रत्युष्टको रक्षः प्रत्युष्टा अरातय इत्याह रक्षसामवहत्यै रग्नेर्वस्तेजेष्ठेन तेजसा निष्ठपामीत्याहमेध्यत्वाय स्पृजः सम्माष्टि श्रवमग्रे य अथ जुहो अथोपभृतम् अथध्रुवाम् अथो वै जुहोः अन्तरिक्षमुपभृत पृथिवी ध्रुवा इमे वै लोकाश्रुजः दृष्टिः सम्मार्जनानि दृष्णिर्वा इमान् लोकाननपूर्वम् कल्पयदि एतदः क्लुप्ताः समेधन्ते समेधन्ते स्मा यदि काम एतावृषः वर्तन्यः स्यादिति अग्रजस्समृद्ध्यात् वृष्टिमेव नियच्छति प्राचीनाग्राह्यः यदि काम एतावृषिकः स्यादिति मूलतः समृद्ध्यात् वृष्टिमेवाद्यच्छति अथवा अग्रद एवत् समृद्ध्यात् मूलतोधस्तात् तदनुपूर्वम् कल्पते भवतीति प्राचीनप्याकारम् अग्रे अनन्तरतः एवमह्यन्न मध्यते अथवाजीवन्ति ऊर्ज एवान्नाद्यस्यावर्धीम् प्रतिष्ठति तस्माद्रत्नोक्रान्तपृष्टाल्लोमानि प्रत्यन्तधस्तात् सुग् प्राणोभिः श्रुवः विभवद्दक्षिणो हस्तः बृहत्सव्यः आत्मा ध्रुवार्जनानि एवम् वेद दिवशिल्पमोदतम् सपत्नम् नाशयामिमार्जनान्यग्नो प्रहरति आपोपमेवैषामेतन्महिमानम्यादिष्टेष्टुभप्रजापतिः राजापत्योदः हेदस्यामार्जनानि स्वीनानि छन्दसा स्वया देवतया समर्थयति प्रजननाय यदैत प्रदया वजु कृत्यजमानः तान्ये कृते देवाभाः अस्यन्दे तत्स्थानकार्यम् आरर्थस्यज्ञेस्के कर्मनत्सु विदोहा इत्येनाल वषभोगतिष्ठेयः अदआत्मज्यक्तं अधर्मा आधिपवः कर्यस्य तदीयनिसे कर्मणा नत्राहदेव्य सन्दिष्ठले उत्तरवावदस्य प्रतिष्ठा हेदागुह रस्मैनि प्रतिष्ठां देवा समाभरणम् ्यस्यतिष्ठामेव प्रतिष्ठति प्रजया पशुभिस्तम्भस्य वा एतद्रोपम् यत्सृक्संवाद्यानि स्तम्भो वा ओषधयः पशो अनुवन्ते अप्रियो ह्येषाञ्जलकक्षः यावदप्रियोञ्जलकक्षपशूनाम्प्रियःपशूनाम् भवति यस्यैतान्यत्वार्थे दधति नवदाभ्या स्वभावोषदेषु परो रवन्ते नवदावो ह्येषाम् प्रियः यावत्प्रियो हैनवदावः पशूनाशूनाम् भवति यस्यैतान्यत्नो प्रहरन्ति तस्मादेतान्यत्नावेव प्रहरेत् पशूनान् नृत्यैः जरो वृषांसीः एतदस्वफलन्तस्वाहेत्यज्ञसम्मार्जनान्यत्नो प्रहरति एषा वा एतेषा योनि एषा प्रतिष्ठा सा मेविना नियोनिम् प्रतिष्ठान्यतिष्ठति प्रजा पशुफल्यमानः ते गो वा एषः प्रजाप्रजास्ते यज्ञमेवाकः प्रजानाम् प्रजननाय यत्तिष्ठन्ति सन्नह्येत प्रियम् आसीना सन्नह्यते आसीना एषा वीर्यम् करोति पश्चात्राधीता देवानाम् आत्मना गोपीताय आशासानासोमनसमित्याहेभ्यामेवैनाम् केवलीम् कृत्वा आशिषा समर्थयति सग्नेरनुवृता भोक्त्वा सन्नत्य एकमित्याह एतद्वैपत्न्यै व्रतोपम् तेनैवैनाम् व्रे तस्मादुः तस्यास्मिलोके भवति योग्रेण यदास्ते सक्षेमः योगक्षेमस्य कृप्तिः युक्तिम् क्रियासमृद्धि ग्रन्थिङ्ग्रथ्नादि आदिवास्याम्परिगृह्णादिधनम् य प्रजायते प्रजया पशुपर्यवा एष आत्मनः यज्ञमेव तन्मेकरोति प्रजातिवास्य जन्म हिमानम् व्यादिष्टे स्ते धृतप्रजापतिरासीत् ततः प्रजामिवास्ति धृत्वायप्रजा यज्ञस्य खडोति अनन्दर अथवा व्यक्तिया एवेशज्ञस्य आन्वारम्भनवच्छति मेद्यम् वा यत्क्रोधी यत्पत्यलेक्षदे गाधर्वत्यदि श्रीद्वेद हिताय आहुनीयं कृतोदति यज्ञस्रन्दति हेदासिदेदात्प्ये हित्याह एवो मद्दि केनाचिम किं स एवत समर्पितः अग्नेश्चते लोमावेहितारायम् साहि षेजुषे भवेत्या प्राणापानो भवित्रे निर्माण एव प्राणापानो ददाति एवमभि प्राणासा मेधत्वम् पेशलम् विप्रतिरूपाण्यास्ते एवमेता यदि भवे सर्वा देवतात् छन्दसापोत्मनात्यजावित्वायमितरत्वाय सावित्र्यगर्प्रसोदम् एकर्म सदिति सविदर्पसोदमेवास्य कर्म भवति तच्छ गायत्र्यात्तिश्रमद्धत्वाय कथले भवसिते सन्नेयते औरदेवक्षोन असहरियजमानं शुक्रंदा शुक्रायं दिअदिसत्वा अध्यादश्यत्यत्वात् येत्या हररवताया हरया अध्यानन्द्रयया देवासुरः संगीतं आजनः सयेदनन्द्रआद्यस्य अवकाशमवस्त्र तेनावे इदिक्षता तदेवावन्न त्रासरा देवं मितपराद्यमवेक्षते भवत्वात्मना आसफलुयोति मवादिना उदन्ति ैव प्रीणादि चतुर्ज्वान् गृह्णाति चतुष्पादः पशवः पशूनेवावृन्धे अष्टावु बभृदि अष्टाक्षरा गायत्री गायत्रः प्राणः प्राणमेवत्यावेधोः चतुर्जुक्न् गृह्णन्भू गृह्णीयात् अष्टावीयः यजमाना एव तस्माच्च अष्टावुपभृति तस तस्मादष्टाशभा चतुर्भ्रवायाम् तस्माच्चमोद्यन् देहे यद्यह्वान् बृह्मादि प्रयाजेभ्यस्तल् यदुपभृति प्रयाजानुयाजेभ्यस्तल् सर्वस्मैवा एतज्जन्याय्रुवायामाद्यम् आपो देवीत्याः कृष्णारूत कृत्वा स्वाहेत्याः प्रजा वैबिः वेदि एव दुर्गाम् प्रतिष्ठापयतिष्ठापयति यत् तान् रक्षायत् ताभिज्ञेत् वेद परिहदासाद्य प्रोक्षति एत एव अन्योके स्वप्नौषधि सद्यतः सह तुजावृष्टाः प्रत्यञ्जन्यन्ते मृत्यक्षदि जयावे भवे यथा सोत्स्य कालआवः प्रस्तातिन्दि तादृगेवदले सधाय पितृपितृत्वा स्वधाकारो हि पितृणाम् पूर्वभवरेषध्यै इदं दक्षिणाएष्रा नैरोत्तरस्य नमेविसंगत्य पासावे पितराभेषता मास्का नेवक्पैनादि मासावा उडते वर्तयन्दि यत्र वित्रे अपि सृजति यजमानोऽ प्रस्तरः प्राणात्रे एव प्राणाकालो ददाति ऊर्वादन् देवे देवे स्वयम् परिधिम् परिदधाति विश्वावसरित्याः विश्वमेवायुर्य इन्द्रस्य बाहुसु दक्षिण इत्याह इन्द्रियमेवैजमाने दधाति दधाति सूर्यस्त्वापुरस्ता देवेनपादिहोत्रन्वहोत्रेण समर्थयति इन्द्रे स्थैत्याः देवतानामेवैो रन्धरिक्षमुपेनाम तद्धृताजीति तद्धृताचीत्या एतासदम् सुकृतस्य लोक इत्याह सत्यम् वै सुकृतस्य लोकः सत्येवैना सुकृतस्य लोकेता विष्णो पाही इत्याह यज्ञा वै विष्णुः यज्ञस्य सत्यम्बायीपतिम्बाहिजमानायात्मने तेभ्योत्रा त्रयः श्चिन्ते षड् वार्धवः ततो नैव प्रीणादि वेदेनोपवादयत्यो वै वेदप्राणः एव प्राणम् ददाति त्रयो वै प्राणाः प्राणाोपयत्यमाघारमाघारयति यज्ञा वै यज्ञमेव प्रजापतिम्खतारभते तथा प्रजापतिः सर्वा देवता सर्वा एव देवता प्रीणादिमाष्टिवेष्टि क्रियावृद्धि अथो मे धर्वाय अथोय देवै देवाश्वा देवाश्वानेव तत्सम्माष्टि स्वर्गस्य लोकस्य षष्टि आसीनान्यमाखारमाकार इति तिष्ठन्नम् वा युञ्ज्यात् एवमेभ्योन्त्य एवम् वेद्याः यज्ञा वै भवनम् यज्ञ एव यमानम् प्रदया पशिभिः प्रथयति अग्नेष्टः अग्निर्वै देवानान्य तस्मा एव विद्यायावित्र्यपभृत ताभ्यामेवैः प्रसोदः विष्णो मा वानवक्रमिशवित्याः पुरस्ताद् विष्णुज्ञः पश्चात् ताभ्यामेव प्रतिप्रोच्यात्या ैष्ण्वै देवानामपराजितमायतम् यद्यज्ञः देवानामेवापराजित आयतमे तिष्ठति यत इन्द्रोधीर्याणि इत्याह इन्द्रियमेव यजमानेतदा एतस्मिन् काले देवा स्वर्गम् लोकमायन् साक्षादेव यजमाने दधाति बृहद् लोकस्य समष्ट्यैदेव एव वित्रम् ऋषिकर्मचरितम् वृजिनाजनतारितात्पादि ऋषिकर्मे ीधाय शिरो वा एतत् इति प्राणाः प्राणादिशिरोसंज्योतिषामित्याः ज्योतिरैवात्मा उपरिष्टादि नुष्ठात् दृष्ट्या वा एते न्युप्यन्ते यद्ब्रह्मा यद्धान् सङ्कर्षेत् प्रमायिकस्यात् प्रोडाशमुपकृष्य सञ्चरं नाश्च प्राणान् सङ्कर्षति न प्रमायिको भवति पुरस्तासीनः इडाया इडामादधाति हस्याग्महोत्रे चतुःसम्पद्यते छत्वार्वेशप्रतिष्ठानानि यावानेव ेवतानामोदःपशमान् भवति एवम् वेद यामे माददाति काजस्याभाविधेयम् यामुपह्वे प्राणा प्राणागश्चावरुन्ते अथवा एतर्शुदा यामिणायाम् ैव्यामीत्य भविष्यामीति नाहमभागा याच्या भविष्यामीति याच्याकरिष्यथेतिकारः निदाय प्रम् परिषदम् भागिनः करोति चतुर्था सदस्रादिषः दिक्श्वेमप्रतिष्ठति अरेहृङ्करौदि भगवान् अवैप्रोडासः प्रजावदे भगवान् मेव प्रजा प्रदिष्टावेदे अस्मागतस्थनान् अन्यस्थाः प्रदिष्टान्ते मागुसेनान् अन्यः ततोकलम्बाः अक्षनावाय दाहर्यस्य आन्तरवेद्योर्थिन्जे च परणासिन्द्रैन्द्रौदिते दक्षिणाया दधाति अग्निमुखा शुद्धिः अग्निमुखामेव सकृतवशी यद्विराकारः ऋतो नैव प्रीणादि वेदेन ब्रह्मणे ब्रह्मभागम् परिहरति राजापत्या वै वेदः राजापत्यो ब्रह्मा सविदा यज्ञस्य प्रतोहोति रमण्येन यज्ञम् प्रीणाति तथा ओ, अन्या एषा यज्ञस्य प्रतिष्ठति अत्र वाच्यायप्रेषु तोमांसोक्तवाकायसोक्ता ब्रूहेत्याः आदृशमेवेतामाशास्ते स्वकाले व्याहोदृढेत्याह स्वकाकरोति स्वस्तिमानुषे वायप्रतिष्ठत्यस्यातृभ्याम् नृणुते प्रतीचीमोभृतम् एव प्रतिणदते क्तिमे लोकाः एभ्य एवमेव यजमानम् स्वर्गम्मात्याः प्रजायै गोपीठाय नामाप ओषधेनाप्यायुता ृष्टिमेवावृन्धेवावृन्धे तावदस्यायन्मीयते आयुष्पायन्मे बाहीत्यार्युप्रस्तरम् प्रहरति तावदस्य लक्षणीयदे चक्षुष्पाज्ञेत्याह चक्षरेवात्मन्धत्ते शिवादीत्याह तथा यजुरेवैतत् अग्नेदेव पणिभिर्वीयमाण इत्याह अग्नय एवैनञ्जष्टम् करोति भरामित्याहेवान् भूमामेवोपैति यज्ञस्य समिष्टिम् प्रस्रावैति क्रूरम् तत्वामुपभृतम् श्वे देवाः तिष्ठिर्भवति इन्द्रियम् वै तिष्ठमेव यजमाने दधाति अग्ने रामपन्नग्रहस्यीत्याग्रहः अस्या एव सदने साधयति धायशीतै पाहि दृष्टै पाहि एवातिरिक्तम् ददातिरिक्तेनैवातिरिक्तमाप्तेभ्यो निलायतान्दन् वेदेन वेदम् विपुदः पृथिवी पृथिवी पार्थिवानि एतानि श्मश्रूणि यद्वेदः यत्मेवादन्तसन्तानां यत्तरस्मागत्varthetaमासाद तगौसिंतुरमुत्तरेर्थमासार्गते तङ्कालेकालार्गदेजदे नमराजनावदन्दि सत्वार्थर्विस्थाद योगितो यत्किम्ब्रिंके देहेणमप्रतिष्ठापयतेति गाधात्कात् शरीरयत्किम्ब्रिंके देवागादृत्वगादुमित्तागादुमदेत्चारः तथाएवेत्किम्ब्रिंके देहेणमप्रतिष्ठापयते अभियान <mí> ृष्यते धातुश्चयो न सुकृतस्य लोक इत्याहनिर्वेदाता पुण्यङ्कर्मे दधाति श्वानम्पद्वति अस्मिन् लोके प्रतिष्ठानीति अस्मिन्नेव लोके प्रतिष्ठति अथो वाग्स्यी ञोकोर्णभात्रमान इति वेद एवास्याम् प्रजाम् दधाति यदया हि मनुष्यपूर्णः मुखम् विवृष्टेश एवं वेद विन्दते मनुष्येषु उपवेशमधारयन् ये अस्मदपदेजतः तानस्मभ्यमिहागुरु उपवेशोपविष्टिनः तस्मात् पुरस्तात् प्रत्यञ्जयश्रोत्रा अपस्यन्ति अप्रतिपादन एवे दृष्टिर्वा उपवेशः सुचर्तावत्रैनामगृह्यप्रहरति निरमुन्न सपत्नायःपृतन्यति ्रहा यतो न पुनरायसि ब्रह्मणा सोषितः विद्ध्वागेभ्यो निर्वृत्य रुद्रेण ब्रह्मणा स्त्रुते अतो ष् नामविद्यास्तृत्यैप्रश्च समाप्तः